नारदपुराणम् पूर्वार्थम् अध्यायम् फोर् शनक उवाच श्रद्धा पूर्वाः सर्वधर्मा मनोरथफलप्रदाः श्रद्धया साध्यते सर्वं श्रद्धया तुष्यदे हरिः भक्तिर्भक्त्यैव कर्तव्या तथा कर्माणि भक्तिदः कर्मश्च विहीनानि न सिद्ध्यन्तिं द्विजोत्तमाः यथा लोको हि जन्तूनां चेष्टाकारणतां गतः तथैव सर्वसिद्धीनां भक्तिः परमकारणं यथा समस्तलोकानां जीवनं सलिलं स्मृतं तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते यथा भूमिं समाश्रित्य सर्वे जीवन्ति जन्तवः तथा भक्तिं समाश्रित्य सर्वकार्याणि साधयेत श्रद्धाल्लभदे धर्मं श्रद्धावानार्थमाप्नुयाद श्रद्धया साध्यदे कामश्रद्धा वान्मोक्षमान्पुयाद न दानैर्नतपोभिर्वा यज्ञैर्वा बहु दक्षिणैः भक्तिः नैर्मुनिश्रेष्ठ तुष्यते भगवान्हरिः मेरुमात्रसुवर्णानां सहस्रशः दत्ता चाप्यर्थनाशाय यतो भक्रिविवर्जिता अभक्रिया यत्तपस्तप्तैः केवलं कायशोषणं अभक्रिया यद्धुदं हव्यम् भस्मनिन्यस्तहव्यवद यत्किञ्चित्कुरुते सन्नाम तन्नामजायते पुंसां शाश्वतं प्रतिदायकम् अश्वमेकसहस्रं वा कर्मवेदोदितं कृतम् तत्सर्वं निष्फलं तत्सर्वम् निष्फलम् ब्रह्मण्यदिभक्तिविवर्जितम् हरिभक्तिपरा नृणाम् कामधेनूपमा स्मृता तस्याम् सत्याम् पिबद्यज्ञा संसारगरलम् ह्यहो असारभूते संसारे सारमे ददजात्मज भगवद्भक्तसङ्गश्च हरिभक्ते स्थितिक्षुदा असूयोपेदमनसां भक्तिदानादिकर्म यद अवेहि निष्फलं ब्रह्स्तेषां दूरतरो हरिः परिश्रियाभितत्पानां दम्भाचाररतात्मनां मृषा दुकुर्वदां कर्म तेषां वै मृषा च तान् धर्मेष्वभक्तिमनसाम् तेषां दूरतरो हरिः वेदप्रणिहितो धर्मो धर्मो वेदो नारायणः परः तत्रा श्रद्धा तेषां दूरतरो हरिः यस्य धर्मविहीनानि दिनान्या यान्ति च स लोहकारभस्त्रेवश्वसन्नपि न जीवति धर्मार्थकाममोक्षाख्याः पुरुषार्थाः सनातनाः श्रद्धावतां हि सिद्ध्यन्ति नान्यथा ब्रह्मनन्दन स्वाचारमनतिक्रम्य हरिभक्तिपरोहि अह सयादि विष्णुभवनम् यद्वै पश्यन्ति सूरयः कुर्वन् वेदोऽपितान् धर्मान्मुनीन्द्रस्वाश्रमो जितान् हरिध्यानपरो यस्तु सयादि परमम् पदम् आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः आश्रमाचारयुक्तेन पूजितः सर्वदा हरिः यस्वाचारपरिभ्रष्टः साङ्गवेदान्तगोऽपि वा स सा एवपदितो ज्ञेयो यथ कर्म बहिष्कृतः हरिभक्तिपरिवापि हरिध्यानपरोऽपि वा भ्रष्टो यस्वाश्रमाचारात्पतितः सोऽभिधीयते वेदो वा हरि भक्तिर्वा भक्तिर्वापि महेश्वरि आचारात्पतितम् मूढं न पुनादिद्विजोत्तम पुण्यक्षेत्राभिगमनं पुण्यतीर्थनिषेवणम् यज्ञो वा विविधो ब्रह्मं स्त्यग्राचारं न रक्षति आचारात् प्राप्यते स्वर्ग आचारात् प्राप्यते सुखम् आचारात् प्राप्यते मोक्ष आचारात् किं न लभ्यते आचाराणां तु सर्वेषां योगानां चैव सत्तमम् हरिभक्ते परि तथा निदानं भक्तिरिष्यते भक्त्यैव पूज्यते विष्णुर्वाञ्छितार्थफलप्रदः तस्मात् समस्तलोकानाम् भक्तिर्मादे गीयते जीवन्ति जन्तवः सर्वे यथा मादराश्रिताः तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्मिकाः स्वाश्रमाचारयुक्तस्य हरिभक्तिर्यदा भवेत् न तस्य त्रिषु लोकेषु सदृश्योस्त्यजनन्दन भक्त्या सिद्ध्यन्ति कर्माणि कर्माणि कर्माभि स्तुष्यते हरिः तस्मिं स्तुष्टे भवे ज्ञानं ज्ञानान्मोक्षमवाप्यते भक्रिस्तु भगवद्भक्सङ्गेन खलु जायते सत्सङ्गं प्राप्यते पुंभिः वर्णाश्रमाचाररता भगवद्भक्तिलालसाः कामादिदोस्निर्मुक्तास्ते सन्तो लोकशिक्षकाः सत्सङ्कः परमो ब्रह्मन्न लभ्येदाकृदात्मनां यदि लभ्येद विज्ञेयं पुण्यम् जन्मान्तरार्जितं पूर्वार्जितानि पापानि नाशमायान्ति यस्य वै सत्सङ्गतिर्भवेत्तस्य नान्यथा कटते हि सा रविर्हि रश्मिजालेन दिवा हन्दिबहिष्टमः सन्तःसूक्तिमरीच्योस् शान्दर्ध्वान्तं हि सर्वदा दुर्लभाः पुरुषालोका लालसाः तेषां सङ्गो भवेद्यस्य तस्य शान्तिर्हि शाश्वती नारद उवाच किं लक्षणा भागवतास्ते च कर्म कुर्वदे तेषां लोको भवेत् कीदृत्तत्सर्वं ब्रूहि तत्त्वदः त्वं हि भक्तो रमेशस्य देवदेवस्य चक्रिणः येदा निगदितुं शक्रस्त्वदो नास्त्यधिकोपरः शनक उवाच शृणुब्रमन् परं गुह्यं मार्कण्डे यस्य धीमनः यमुवाच जगन्नाथो योगनिद्रा विमोचितः योऽसौ विष्णुपरं ज्योतिर्देवदेवः सनातनः जगद्रूपी जगत्कर्ता शिवब्रह्मस्वरूपवान् युगान्दिरौद्ररूपेण ब्रह्माण्डलसबृंहितः जगत्यकार्णवीभूते नष्टे स्थावरजङ्गमे भगवानेव शेषात्मा शेदे वडदले हरिः असङ्ख्यादाब्जजन्माद्यैराभूषिततनूरुहः पदाङ्गुष्ठाग्रनिर्याङ्गाशीदाम्बुपावनः सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासंबृंहितः वदच्छदे शयानोऽभूत् सर्वशक्तिसमन्वितः तस्मिन् स्थाने महाभागो नारायणपरायणः मार्कण्डे यस्तिनस्तस्य लीला पश्यन्महेशिदिहु ऋषय ऊचुः तस्मिन् काले महाकोरे नष्टे हरि हरिरेकस्थित इति मुने पूर्वं हि शुश्रुम जगत्ये कार्णवीभूते नष्टे स्थावरजङ्गमे सर्वग्रस्तेन हरिणा किमर्थं सोऽवशेषितः परं कौतूहलं ह्यत्रं वर्तदेतीव सूतनः हरिकीर्तिसुधापाने कस्यालस्यम् प्रजायते सुत उवाच आसीन्मुनिर्महाभागो मृगन्दुरिदि विश्रुदः शालग्रामे महातीर्थे सोतप्यत महातपाः युगानामयुगम् ब्रह्मन् गृणन् ब्रह्मसनातनम् निराहारः क्षमायुक्तः सत्यसन्धो जितेन्द्रियः आत्मवत् सर्वभूतानि पश्यन्विषय निःस्पृहः सर्वभूतहितोस्तताप सुमहत्तपः तत्तापसङ्गिता सर्वे देवा इन्द्रादयस्तदा परेशम् शरणम् जग्मु नारायणमनामयम् क्षीराब्धेरुत्तरम् तीरम् सम्प्राप्य त्रिदिवौकसः तुष्टुवुर्देवदेवेश्यम् पद्मनाभं जगद्गुरुम् देव ऊजुः नारायणाक्षरानन्दशरणागतपालकमृकण्डुतपःसात्रस्तान् पाहि नः शरणागतान् जय देवाधिदेवेश जय शङ्खगदाधर जयो लोकस्वरूपाय जयो ब्रह्माण्डहेतवे नमस्ते देव देवदेवेश नमस्ते लोकपावन नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे नमस्ते ध्यानगम्याय नमस्ते ध्यानहेतवे नमस्ते ध्यानरूपाय नमस्ते ध्यानपाक्षिणे केशिहन्द्रे नमस्तुभ्यम् मधुहन्द्रे परात्मने नमो भूम्यादिरूपाय नमश्चैतन्यरूपिणे नमो ज्येष्ठाय शुद्धाय निर्गुणाय नमः नमो जगद्धिदाय कृष्णाय गोविन्दाय नमो नमः नमो हिरण्यगर्भाय नमो ब्रह्मादिरूपिणे नमः सूर्यादिरूपाय कव्यकव्यभुजे नमः नमो नित्याय वन्द्याय सदानन्दैकरूपिणे नमः स्मृतार्तिनाशाय भूयो नमो नमः एवम् देवस्तुतिम् श्रुत्वा भगवान् कमलापदिः प्रत्यक्षतामग शां, तेषाम् शङ्गचक्र गदाधरः विकजाम्बुजपत्राक्षम् सूर्यकोटिसमप्रभम् सर्वालङ्कारसंयुक्तम् श्रीवत्साङ्गितवक्षसम् पीताम्बरधरम् सौम्यम् स्वर्णयज्ञोपवीदिनम् ृद मानम् मुनिवरैः पाशदप्रवरावृतम् तम् दृष्ट्वा देवः सङ्खास्ते तत्तेजो हद तेजसः नमश्चक्रुर्मुदा युक्ता अष्टाङ्गौरवनिम् गदाः ततः प्रसन्नो भगवान्मेघगम्भीरनिःस्वनः उवाच प्रीणयन् देवान्न दानिन्द्रपुरोगमान् श्रीभगवानुवाच जानेवो मानसं दुःखं मृकण्डु तपसोद्गमम् युष्मान्न बाधते दे देवाः सर्षिः सज्जनाग्रणीः सम्पद्भिः संयुगवापि विभद्भिश्चापि वी सज्जनाः सर्वधान्यम् न बाधन्ते सुरसत्तमाहा सुरसत्तमाः सतदम् बाध्यमानोऽपि विषयाख्यैररादिभिः अविधायात्मनो रक्षामन्यान्द्वेष्टि कथम् सुधीः तापत्रयाभिधानेन बाध्यमानो हि मानवः अन्यम् क्रीडयितुम् शक्तः कथम् भवति सत्तमः कर्मणा मनसा वाचा बाधते यः सदा परान् नित्यम् कामादिभिर्युक्तो मूढधीः प्रोच्यते तु सः यो लोकहितकृन्मर्त्यो गदा सूर्यो विमत्सरः निःशङ्कः प्रोच्यदे सद्भिरिहामात्र च सत्तमाः सशङ्कः सर्वदा दुःखी निःशङ्कः सुखमाप्नुयाद स्वालयं स्वस्था क्रीडयिष्यति वो न सः भवतां रक्षकश्चाहं विहरध्वं यथा सुखम् इति दत्त्वा प्रभः पश्यतामेव देवानां तत्रैवान्दरधीयद तुष्टात्मा नः सुरगणां ययुर्नाकं यथागतम् मृगण्डोरपि तुष्टात्मा हरिः प्रत्यक्षतामगाध अरूपं परमं ब्रह्म स्वप्रकाशं निरञ्चनम् अदसी पुष्पसङ्काशम् पीदवाससमच्युतम् दिव्यायुधरं दृष्ट्वा विस्मिदो मृकण्डुर्विस्मितोऽभवद ध्यानादुन्मील्यनयनम् अपश्यद्धरिमाग्रदः प्रसन्नवदनं शान्तम् धाधारं विश्वतेजसम् रोमाञ्चितशरीरो सवानन्दाश्रुविलोचनः न नाम दण्डवद्भूमौ देवदेव सनातनम् अश्रुभिः क्षालयंस्तस्य चरणौ हर्षसम्भवैः शिरस्यञ्जलिमाधाय स्तोदुम् समुपचक्रमे मृकण्डुरुवाच नमः परेशाय परात्मरूपिणे परात्परस्पत्परतः पराय अपार पाराय परानुकर्त्रेर्नमः परेभ्यः परपारणाय यो नाम जात्यादिविकल्पहीनशब्दादि दोषव्यतिरेकरूपः बहुस्वरूपोऽपि निरञ्जनो यस्तमीशमिढ्यम् परमम् भजामि वेदान्तवेद्यम् पुरुषम् पुराणम् हिरण्य गर्भादिजगत्स्वरूपम् अनूपमम् भक्ति जनानुकम् पिनम् भजामि सर्वेश्वरमादिमीढ्यम् पश्यन्ति यम् वीरसमस्ततोध्यानैकनिष्ठा विकतस्पृहाश्च निवृत्तमोहाः परमम् पवित्रम् नतोऽस्मि संसार निर्वर्तकं तम् स्मृतार्तिनाशनं विष्णुम् शरणागतपालकम् जगत्सेव्यम् जगाद्धाम परेशम् करुणाकरम् एवं स्तुतः स भगवन् विष्णुस्तेन महर्षिणा अवाप परमां तुष्टिं शङ्खचक्रगदाधरः अयालिङ्ग्यमुनिं देवश्च दुर्भिर्दीर्घबाहुभिः उवाच परमं प्रीत्या वरम्बरय सुव्रत प्रीतोऽस्मि तपसा तेन स्तोत्रेण च तवानफ मनसा यदभिप्रेदं वरम्बरय सुव्रद मृकण्डुरुवाच देवदेवजगन्नाथ कृदार्थोऽस्मि न संशयः त्वद्दर्शनम् अपुण्यानां दुर्लभं च यदस्मृतं ब्रह्माध्यायं न पश्यन्ति योगिनः संशिदव्रताः वीदरागा विमत्सराः तंपश्यामि तं पश्यामि परं धाम किमदोऽन्यं वरं वृणे यदेनैव कृतार्थोऽस्मि जनार्दनजगद्गुरो यत्रामस्मृतिमात्रेण महापादकिनोऽपि ये तत्पदे परमं यानि ते दृष्ट्वा किमुनाच्युत श्रीभगवानुवाच सत्यप्रोक्तं त्वया ब्रह्मान् प्रीडीस्मि तव पण्डित मद्दर्शनं हि विफलं न कदाचिद्भविष्यति विष्णोर्भक्त कुटुम्बीदि वदन्ति विबुधाः सदा तदेव पालयिष्यामि मज्जनो नानृतं वदेद तस्मात्त्वत्तपसातुष्टो यास्यामि तव पुत्रतां समस्तगुणसंयुक्तो दीर्घजीवीस्वरूपवान् मम जन्मकुले यस्य तत्कुलं मोक्षगामि मुनिश्रेष्ठ किमसाध्यं जगत्रये इत्युक्त्वा देवदेवेषो मुनेरथस्य समीक्षतः अन्तर्दधे मृकण्ठुश्च तपःसत् समवर्तत इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भक्तिवर्णनप्रसङ्गेन मार्कण्डेयचरिदारम्भो नाम चतुर्थोऽध्यायः ओम्